ज्योतिष्ठमम् प्रथममुदयन्त्रस्मिन्नेवन लोके प्रियतिष्ठन्ति योष्टो मन्त्रि यमुपयन्तरिक्षकेवलेन प्रियतिष्ठन्दायष्टो मन्त्रि यमुपयन्तमस्मिन्नेवतेन लोके प्रियतिष्ठन्तिोजन्तरिक्षं गौरसा वायुर्येता सोमानुभयम् चेष्वेवलं लोकेन दत्त्याः प्रतिष्ठन्दायन्स्तुता विराजमभिलम्ब्यन्ते अवदच रजक गगोरित् तगया विदुनस्त वर्गो वै लोतोज्जो जनोरभिरा रज्मे बावरं धते तेनक्षधा इमा चन्दक्षोधा भवन यक्षुत्सम माघये वहि सद्रणाज्यष्टो मावहिद प्रतिते उच्छामध्येन दन्तत देदत् परयुद्ध वदक्व्यते तेन लहेनन्त देवक्क्मेव समालो अन्तरष्टे स्वस्य नमस्तु वदेश रहलयं दिशट्मा ृष्णेन प्रतिष्ठन्ते भैदव ज्योतिदायन्ते भैरेव प्रतिष्ठन्तोऽयं च द्वोषणः फलस्ता द्वादशाहारि सम्पद्यन्ते द्वादशो वे पुरुषोऽत्वायङा हिस्तनौ द्वादशो तत्पुरुषमनुपयावर्तन्ते प्रयक्षणः भवन्ति षष्टादशानिकम्पद्यन्ते न पाण्यानि न प्राणास्तप्राणानुपर्यावर्तन्ते चत्वारक्षणः भवन्ति चतुर्विंशतिरः संवर्ज्यन्ते चतुर्विंशतिपर्यावर्तन्ते प्रतिष्ठिणः संवत्सर इति प्रतिष्ठाया इत्येतावद्देशंवत्सरस्य ब्राह्मणै यावन्मासो मासिमास्येव प्रतिष्ठन्तोयन्ते मेढस्त्वापलदेन वदोहिलग्देवश्गैः शल्मलवृद्ध्या वर्णा ब्रह्मणा प्रक्षोमेधेन जग्रोधश्च पदे निर्मलमोगायतेभुत्सो मेहवन्ते स्थावन्ते स्वावन्तु प्रियन्ताप्यानान्निधेनान्तानि वजगम् भवामहेव सोममा ्याद्भ्यस्पाः कोल्याभ्यस्पाः विकर्याभ्यस्ताः वट्याभ्यस्ताः कन्याभ्यस्ताः स्रज्याभ्यस्ताः सोद्याःभ्यस्ताः हरस्याभ्यस्ताः वैशन्ति भ्यस्ताः पल्मल्याभ्यस्ताः वर्ष्याः भ्यस्ताः वर्ष्याभ्यस्ताः श्रादुलेभ्यस्ताः पुष्पाभ्यस्ताः स्न्दमानाभ्य भस्माः स्थामरा भस्माः नादेगे भस्माः सैन्धवे भस्वाः सुमुद्रिका भस्वाः सर्वा भस्वाः भ्यस्ताः वहन्ते व्यस्ताः परिवहन्ते व्यस्ताः भवन्तम् महन्ते भ्यस्ताः ग्रह महन्ते व्यस्ताः भीमम् महन्ते व्यस्ताः ग्रम् महन्ते व्यस्ताः भीमम् महन्ते भ्यस्ताः भोः भ्यस्ताः भ्यस्ताः भ्यस्ताः स्मायोम् सरितमभ्यवेदि वरुणः ृत्रहम्भोभ्यः शूरमपुंसते भद्रा इन्द्रस्तराजयः अभिकर्त्रेन्द्रभोदयम् य नमोऽश्वाय नमः प्रजापतगे नमोऽधिपतिम्भतिरहम् प्रजानाम् कृपागताय स्वाहा लब्धाय स्वाहा हुताय स्वाहार्वातोऽस्वाजस्वलेन सन्ता एवधन्यात्मसायपद्धते वेदा। विश्वारूपादिवेन अस्माभ्यम् वयसा पिण्डमाना प्रजापतेन्द्रगोष्ठविश्वेः देव शिला सती गोष्ठमागस्ता सा वयम् व्रदजातम् तदेमृष्ट्वा हेहरम् दृष्ट्वा बृहद्वयः यज्ञस्मिदासेत्विदासेत् पूर्वनित्यस्वहासेत् बृहद्वयः पिलङ्राशेत्पिलिप्काके जायते पुनःस्त्यफेटजम् यज्ञस्तिनापमनम् महत् सौर्यजे काकेश्रमाजायते पुनः अग्निलहमस्थेषजम् भोगिरापमणम् महत् पृच्छामि त्वापरमन्दम् पृथिव्याः पृच्छामि त्वाभोणस्य नाभिम् पृच्छा वित्त्वा विष्णो अश्वस्तलेनः पृच्छा विवाचः परमम् यो वाहुः परमन्तम् पृथिव्यायेण्यमाहुर्भुवनश्चनाभिम् सोममाहुर्विष्णो अश्वस्तलेनो ब्रह्मैम वाचः परमम् न वेदवासिन सुवर्गे योगे सुम्बाधाम् आहमजानिकर्पथमात्मजानिकर्पथम् तौ सः चतुरः पदस्सम् प्रधारयामहेतोभोजनोदाम्बिधाीणामपेक्ष्यः लक्ष्मे लक्ष्मणम् परावधेत् अम्बे अम्बाल्यम्बिके न मायशदिकश्चन मे नामुच्छयदा वेणुभारङ्गिरामिव ना अथास्यामध्यमेधनागम् आथ शीले वाते पुनन्निव अम्बेऽम्बाल्यम्बिके नश्चनस्य श्वकः निर्धनेन पुष्णम् पशुमन्यते शूद्राय दर्जनानपोषाय धनायति अम्बेऽम्बाल्यम्बिके न मागपति कश्चन ्यम्बिके नश्चनस्यश्व पिता चलेम् वृक्षस्य लोहतः पिता गभे पुष्टिमदगुम्नाकारिणन्वस्य वाजिलः आपोहिष्ठामितामोर्देर्धाद महेर्णायदक्षते योशिवतमोरस्तस्य भाजयते हनः उजतेरिव मातरः तस्मानङ्गमामो यस्य कुरारजन्वथः आहो जगलः त्वाञ्जन्दगायत्वेन चन्दना ऋतास्त्वाञ्जन्तभेन चन्दना ऋत्यास्त्वाञ्जन्तुजायतेन चन्दनायत्वातो अपोगवस्य येन गो तदेतेन पथा पुनरः स्वभावत्प्रयाचिनः राज यशो भा एतद्देवान्नैलन्नमध्ये प्रजापते इञ्जन्तिर्बद्धमृषञ्चलम् दम्परितस्थुः देलोचनादि इन्द्रिस्तिकाम्याहय विवक्षसारथे एतम् एदवेशो मर्यापेशिरजा प्राणागस्वाः ज्ञानागस्वाः प्राणागस्वाः स्त्राभ्यस्ताः सन्तानेभ्यस्ताः परिसन्तानेभ्यस्ताः पर्वभ्यस्ताः सन्तानेभ्यस्ताः शरीरेभ्यस्ताः विज्ञायस्वाः दक्षिणाभ्यस्ताः स्वर्गागस्वाः लोकागस्वाः सर्वस्मै स्वाहा य स्वाहाय स्वाहाभिहिताय स्वाहा नभिहिताय स्वाहा युक्ताय स्वाहायुक्ताय स्वाहायुक्ताय स्वाहोद्युक्ताय स्वाहा विमुक्ताय स्वाहा स्वाहा वञ्चते स्वाहा परिवञ्चदे स्वाहा धं वञ्चते स्वाहानुवञ्चदे स्वाहोद्वञ्चदे स्वाहा धाव ए <Gã aims> <Jungovane. laughs> ते शृङ्गारिणो जायन्ताय विगाधाञ्चजायन्तोत्रं वेदं वत्सरो एवं दस्तं वत्सरयन्त्र प्लवन्ते केसंवत्सरपयन्ति यो वै समुद्रस्य पारण्ण्यपश्च वै समुद्रस्तस्यै चत्वारञ्लो वित्सरपयञ्च गच्छन्तीयं वेदयात् ुत्तरो मनः पूर्वभागोत्तरकालः पूर्व कालवोत्तर प्रदोधनम् प्रायणेजो भवति चतुर्विंशतिर्धमादास्संवत्सरः प्रयन्त एव संवत्सरे प्रयतिष्ठन्ति त्रीणि षष्टिश्चेयास्तावदे रूपे ुत्तरेण भरं ऋषणः भवन्ति षड्वारितमः मध्यतो प्रजननायुज्यो भवति विमोचनमेवन्दागस्वेव उभयतोर्गं लोकयन्ति ब्रह्मवादिनामदन्त्यासरेखेणन्ते च देवगानेन पथेन ब्रूच्छन्तां समे देवगानः पन्था गायत्रेष्टो धर्मे गायत्रे गौ स्पृष्टगाय जगति यदेव भवन्ति देवगानेनैव तत्पथायन्ति समानगुणालो गो वेदामदेवलोका देवनयन्यो भवन्त्यलोका देवान्यमन्यं देवलोकमभ्यान तो ब्रह्मसामम् भवतिसु वर्गस्य लोकस्याभिवृत्त्या वर्गस्य लोकस्याभिजित्ते मासिमादिपृष्ठान्युपयन्ति मासिमा शनिग्राह्याकृष्यन्ते मासिमा सेव वीर्यन्तम्बधिष्ठित्या पृष्ठान् मासाम् पृष्ठान्युपयन्ति तस्मानुपरिष्ठा झोडदफलम् गृह्णन्ति त्र वा ददा शङ्गाः सती शृङ्गा निजासन्ते ब्रमण्डदास्मो तिष्ठा मासामत्वासा महानेव द्वादशो मासो संवत्सरत्तिष्ठा वेदितासान् द्वादशे मातिरङ्गा प्रावर्तन्त श्रद्धा वा श्रद्धा वातास्तु परा उभयोतार्थवर्याश्चान्यवातो कृष्ण स्वादुम् वेदपदेन खलु वान्ति खलु वेदत्वादे चतुर्थमयनन्तस्मादेतोसने थमे मासिपृष्ठान्युपयन्ति मध्यममुपयन्त्युत्तममुपयन्ति राहुल्याम्बैत्रे कश्चान्धमुपचेदन्ति रम् वेधापराभ्यान् दोहाभ्यान् पुनः साधोः क्षरे यान्द्वारिशकत्वमुपचेदन्ते संवत्सरकम् सम्पाद्योः उत्तमे मासृष्ठान्युपेयस्तद्विलबालाज्ञम् पशुनपरुन्धरे समुद्रम् वा गे तेन भारवम् प्रप्लवन्ते ये संवत्सरमुपयन्ति यथा मध्ये समुद्रस्य प्रवहन्मध्य व्यक्तादोत्सर्गम् बृहत् समन्तराभ्यामित्ता दृष्टान् गच्छन्ति सर्वे प्रवे कामेभ्यः सन्धिर्भे त्यजमानाः समान्यो भवन्त्य मनुष्यलोको वाचो मनुष्यलोका देवनयन्त्यन्यदन्यत्सानुभवेवलोको विषामदेवलोका देवान्यम् मनुष्यलोकम् प्रत्यवरोहन्तोगन्त्य जगति मग्रौपयन्त्य जगति वैच्छन्दानम् प्रत्यवलोहन्त्यक्षेण ग्रहा बृहत्पृष्ठाणि त्रयत्रिकम् शङ्कस्तौस्तस्माच्चयागुम् सङ्कणीयान् प्रत्यवलोहनि वैश्वकर्मणो लित्यने विश्वा अवरुन्तर आत्यं वा प्रजदृत्तौ गृह्ये रमितन स्वयं प्रजात्या अवान्तरं वैदशरात्रेण प्रजापने प्रजात्रा भवनि प्रजा रेव तद्गजमानाशन्तरे तागम्भवा उदङ्गनस्तत्रस्य भवा व्यर्दशरात्रो यद्दशरात्र भवनि सत्यस्यर्ध्याथोजेव महस्विक क्रिय थे तस्ते शा शाति स्याम्पूर्व देवता पूर्वश्चन्दाकं च वृङ्केभृन्मतेन्द्रं वृङ्केशो खल्वाहुस्सवनमुखे सवनमुखे कार्ये निखात्सवनमुखादेवेन इन्द्रं वृङ्केशं वेशायोपवेशायकारत्र्याष्टभोजगत्या दृष्टुभङ्का प्रातस्तवने कलशो दीर्घेपविष्टवदेशातिरिच्यते विट्टं तच्छिपविष्टमभ्यतिरिक्तक्षिप विष्टोऽ देवातिरिक्तम् दशासोऽतिरिक्ते नैवातिरिक्तमाप्त्वावरुन्धैरिमध्यन्ति नैदेषत्कारवित सामकुर्यवषत्कारो वेदज्ञस्य प्रतिष्ठा प्रतिष्ठामेवेन गमयन्तीति द्वितीयसमन एतदेव षडेर्माधा सम्पाद्या हृत्सन्ति षडेरि माता सम्पश्यन्त्यद्ध पासे माता सम्पाद्याः हृत्रजन्त्यद्धपासेरि माता सम्पश्यन्त्य मा वाश्च सम्पाद्या हृत्जन्त्य मा वाश्चजाहि माता सम्पश्यन्ति पौर्नमास्यामासा सम्पाद्या हृत्जन्ति पौर्नमास्याहि माताम्पश्यन्ति गौवे प्राणमस्ते सम्पाद्याः रुक्तगन्धि संवत्सरा एवदप्राणन्द सत्यनः प्राणन्दते यथा विपदक्षेप संवत्सरो विपदेपौहर्नमास्यामासाः सम्पाद्याः ऋक्तगन्धि संवत्सरा एव तदानन्द सत्यनव न्ति मोत्तमा देवे देवास्याः स्यजन्ति देवानामेव तद्यज्ञेन यज्ञम् विवादेतद्धज्ञम् छिन्दन्ति यक्षरगवन्तमसाः प्राजापत्यम् पशुमा नभन्ते प्रजापतिः सर्वा देवता देवताभिदेव यज्ञकम् सन्तन्वन्त्यं सृजन्ति नाय्यै यत्सा नाय्यम् भवति ते नैव सवनान् नयन्ति तमबहोज भक्षयन्ते तत्सा चेतरि यथायतनं वा नेते शवनं सुवर्णभाजो देवता गच्छन्ति देहविषयन्ति समनं परोडाशा निर्गमन्ति यथायतना देव सवनभाजो देवता अवरुन्धते वननेतादृशगालान् यथ वने छन्दागस्तेव स्वापरुन्धदेवैश्वरेवम् चलन्ति यथ वनेन वैश्वरेवम् वेदति यथ वनम् तेनैवदति यथ वनान् ब्रह्मराजहस्तद्वाहुत्सृज्य मे वेत्यमाभास्यायाञ्चमोन्नमास्याञ्चोत्सृज्यमित्याहुरे यज्ञम् वहनोत्सृज्य इत्याहुर्ये अवान्तरे यज्ञम् भेजातेष्टकातस्यामुत्सृज्यमित्याहुरेशी मासोऽपि सरयदिनादिष्टमुत्सृजे यज्ञनादिष्टमुत्सजे यज्ञादेव पुनःपरिजावे मध्ये रहस्य सम्पद्ये हस्तस्य वसुपते पुरोडाशमष्टाकपालन्यर्भवेजलैन्द्रन्दधीन्द्राय मरुत्पदे पुरोडाचमेषानुजगपालम्बीश्वदेवन्तानुजगपालमग्ने वसुपदप्राणस्वनय्यज्ञजे वसुमते पुरोडाशमष्टाकपालन्यर्भवन्ति देवता मेमदभागिनी कुर्वन्ति समनमष्टाभिरुपयन्ति गजैन्द्रमेवभाग ङ्गच्चा वयन्ति गे मरुत्वतो माडन्ति मरुत्वदेवतोदशगपाल निर्भवन्ति देवतामेव तद्भागिने कुर्वन्ति तवनमेकादशभिर्वयन्ति विश्वेषां वै देवानां प्रभुमतान्दै यद्वैश्वदेवं दाल जगपाल निर्भवन्ति देवतामेव तद्भागिने कुर्वन्ति पवनं वा दशभिर्वयन्ति प्राजापत्यं पशुमानवन्दे वे प्रजापति यज्ञस्यानुसवर्गायाभिवर्तयितः भवति ब्रम्भक्तो ब्रह्म नैव तत्सु वर्गम् लोकमभिवर्तयन् तोयन्दिप्रतिकूलविरहीतस्वर्गो लोकयिन्लक्रुन्नाभ्यो यथा शिक्षा न अस्मिन् पुरोः दजामणजे माज्योजयमहे जगताक ब्रह्मतामम् भवे लोकाज्योजप्रजामे वदन् लोकम् पश्यन्तभिपदन्त आगन्ति जग्विन्द्रियं वीर्यमपात्रात्क्रोशेनाबारुन्धर तत्क्रोशश्च क्रोधत्व यत्क्रोधेत्पानस्यान्ते स्तुवन्ते यज्ञस्यैवान्तङ्गत्वेन्द्रियं वैर्यमपरुन्धरे यस्यान्ते स्तुवन्तज्ञमेवोपद्रष्टारङ्गत्व प्रजापतेन्द्रस्तुवन्त्य श्लोक पुरस्ताच्छरदस्तु पञ्च श्लोकेन पश्चाद्वान्तम् भवन्ति नवभिरद्भर्गरुद्गाय नवमे गुरु प्राणानेव इदमानेन सर्वा भवन्ति प्राणे देवेन्द्रेन्द्रत्यप्रतिहृताभिर्गायुते पुरुषः सर्वा नन्यानि श्रेष्ठाङ्गानि प्रत्यय धीरेव न ैवतेन जायन्तम् भद्रन्दा सुप्रदेशे प्रजाते प्रजापते प्रजामय तासा भगौ राज्यं वरेयामिगौ राजनेनैव राज्यं वर्येत्तद्राजनस्य राजनत्वराजनं भवति प्रजानामेव ल्यमाना राज्यम् वर्यन्त्य पञ्चविहंशम् भवति प्रजापतेन तिष्ठन्तस्तु वन्ति देव लोकमेवाजगन्ति लोकमेवाजगन्ति देवान्धदेव निषद्यस्तु वन्द्यञ्चविशोष्ठन्ते कैकजातोन्नाद्य सम्भृत्यते च आत्मन् दशते तस्मात् प्राणः सर्वाण्यङ्गान्यो यथा सुबन्दमुत्पदिश्यन् शिलमुत्तमं पुरदेव्याहन्ति गच्छन्ति प्रेङ्कं भो कागस्यैव पृष्ठगौरोहन्ति वेदेव लोकास्तेष्वेव पूर्वं प्रतिच्छन्ति आक्रमणमेव लप्से ञ्जलमानाः कुरु सुवर्णस्तमष्टे अर्जे नवे सहस्वदः प्रजापति प्रजा अचताभ्यैराङ्गेनैराङ्ग्लौ तामवानुन्धयम् भवति प्रजादेव नैराङ्गम् भवति प्रजाध्वजेवष्टाद्भ्यैराङ्ग्लौ तामवरुन्धते तस्माद्भ्यागुम् समायुं सत्रयो समर्थं क्षोधुकास्तागुम् समाम् प्रजाय्यातामोर्जमादम् समाव्यर्धमक्षोधुकास्तागुम् समाम् प्रजानज्ञासा मुत्रोदं कुर्वदे कथाबन्धानामुत्रोदं कुर्वद एवमेव कुर्मद विषमोर्चमात्मन्देन्द्रियायुष्येवेन्द्रिये पुनरिष्ठन्त्यान्धावस्याभिजत्येन्धवे चमवरुन्धरे भूमिदं विष्टादामेवावरुन्धते सर्वा वाचा वदन्ति सर्वासां वाक्रोशति पुराण्यश्च क्रोशति पुराण्येवेदाेवान्नाद्यन्तधा कृषिकृतं च वागे देवकृतञ्चासैरवरुन्धते निर्भोते नि भवन्ति यस्यावरुद्धीयन्ति मार्गे मिथुनायन्त्यन्तौ सम्भव हस्तेनैव मिथुनान् नयन्ति भिन्दन्ति पात्मानमेवेणामो भिन्दन्ति पापनाक्षेर्मादम्प्रत्ययवेदा आत्मानमो भिन्दन्दानशेधायश्चन्ति पदोनिग्धते परमन्नाद्यम् परममेवान्नाद्यन्धरे पदोनिग्धन्ति महीनामेवेषु कथले स्वाहारिक्षाय स्वाहा दिवे स्वाहा सम्भोष्यते स्वाहा सम्प्लव स्वाहा सम्प्रदा यस्पाः मेघायिष्यते स्वाहा मेघायते स्वाहा निहाकारे स्वाहा प्राधना यस्वाहा प्राधनाकाले स्वाहा विद्योनिष्यते स्वाहा विद्योतमाना यस्पाः संविद्योतमाना यस्पाहा स्तनयिष्यते स्वाहा स्तनयते भरिष्यते स्वाहा वर्षते स्वाहाभिवर्णते स्वाहा परिवर्णते स्वाहा संवर्षते स्वाहाभिवर्षते स्वाहाशीकायिष्यते स्वाहाजीकायते स्वाहाशीकिताय स्वाहा स्वाहा विप्लदाय स्वाहा दक्षदे स्वाहा तपदे स्वाहोऽग्रमातपदे स्वाहभ्यस्ताः इलभ्यस्ताःभ्यस्ताः गिरभ्यस्ताः वेदेभ्यस्ताः गासाःभ्यस्ताः नाराजगुंसेभ्यस्ताः शैभेभ्यस्ताः सर्वस्मै स्वाहा स्वाहा दन्दका यस्वाहा प्राणिने स्वाहा प्राणा यस्वाहागपदे स्वाहा मुखाय स्वाहा नाशिगपदे स्वाहा नाशिका यस्वाहा क्षण्पदे स्वाहा दक्षिका यस्वाहा कर्णिने स्वाहा कर्मका यस्वाहा शीर्षण्मदे स्वाहा शीर्षका यस्वाहाद्वदे स्वाहा वादका यस्वाहा प्राणदे स्वाहा प्राणदे स्वाहा स्वाहा वद स्पाहा पश्यत स्वाहा पश्यत स्वाहा वष्टत स्वाहा संवते स्वाहा संमते स्वाहा वनस्तिन स्वाहा मनसे स्वाहा रेष्मिने स्वाहा रेतस्कायस्स्वाहा आत्मजस्य स्वाहा प्रजननरागस्स्वाहा लोमवते स्वाहा लोमकायस्स्वाहा आत्मजस्य स्वाहा त्वकायस्स्वाहा चर्मन्वदे स्वाहा शर्मगाय स्वाहा लोहितवदे स्वाहा लोहिताय स्वाहा मागुषन्वदे स्वाहा मागुम् सगाय स्वाहा श्रावभ्यस्वाहायस्वाहा स्तन्वदे स्वाहा नस्थ्यगायस्वाहा मज्जन्वदे स्वाहा मज्जगायस्वाहा स्वाहा शङ्गायस्वाहात्मने स्वाहात्मने स्वाहा सर्वस्मै स्वाहा कस्त्वायनक्षसत्त्वायनत्वविष्णस्त्वायनत्वस्य यज्ञस्य अर्थे वाख्यकम् सन्नत्या पुष्णेता वाजायुजे त्वा प्राणायत्वापानाय त्वा ज्ञानाय त्वा व्युष्टे त्वारिये त्वा राधये ज्ञायत्राय त्रिपते रासन्तराय वासन्तायाष्टाकपाल इन्द्राय त्रेष्टभाय पञ्चदशाय मायग्रेष्पा एकादशगपालो विश्वेभ्यो देवेभ्यो चागदेभ्य सप्तदशभ्यो वै रोगेभ्यो पार्षेभ्यो द्वादशकपालो मित्रा वरुणाभ्यामानुष्टभाभ्यामेकविगुधाभ्या अम् वै राजाभ्यागुशारदाभ्याम् यस्यादयः पुदयपान्ताय प्रवायहात्मराय हैमन्दिकाय शरस्वपित्राय छन्दसाय त्रेऽसाय रताय सेशयग्दादशकपालो लिप्त्यै विष्टमत्ने चतुरग्नय वेष्पादना यद्दादशकपालोनुमत्ते चतुः कागयककालः ज्ञावग्निप्रः क्रियते यश्च सोमो नाजातको देश आदिथ्यैलग्ने सोमीयो जैष रुद्रो यश्चीयते यच्छन्ति ते वेदानि हवेकं शिण्ववेदेष एव रुद्रोषान्तय प्रजापशो नियमानस्याभिमन्येन यच्छन्ति ते वेदानि हवेकं षि गर्वपतिभागधेयेनैव य प्रजाम् पशूनभिनन्यतेन स हवेषि भवन्ति न भवे पुरुष प्राणा समे प्राणाैरमाय सोदशा कला विदारम् विराज विराज्येवान्नाद्य प्रजर्थ त्रतुभि छन्दोभिस्तोमे पृष्ठैश्चेदव्ययित्या हव्यदेतानि हवेषि त्रतुभेवैन्दोभिस्तोमे पृष्ठैश्चिषत् त्या हव्यतानि हनेनषिशामायन्द्रम् देवायाजगन्तस्पान्द्रथमगेतगामनम् मनुष्या सत्पान्मनसमो रथेन्द्रेवानम् मनुष्याणामेवम् भवति जगेवम् विद्वामेतयेत्याः पुरोनमाख्या भवन्ति सर्वासाम् दिशामभिजित्यै ष्टाढतो निमिषतो महित्यै नेत्राजगतो भूमीस्तस्मै देवाय हमिषाभिधेवा उपयामेदाय प्रजापतये त्वाष्टम् गृह्णावितश्चौर्महिमानक्षत्राय रूपमादित्यश्चे त्वाम्ने प्रजापतये स्वाहा यस्य छायामदयस्य मद्रस्मै देवाय हमिषाभिधेव प्रजापतये वायुष्टम् गृह्णामि तस्य देव जीमहिमौषधयोपदयोस्मै प्रजापतये स्वाहा ब्रह्मन् ब्राह्मणो ब्रह्म पच्चमास्मिन् राजन्यैरव्योलो महारथो जायतान्तोषा नोगाजष्टोरथेष्ठाः सभे योगिनस्त्रयजमानस्य वीरो जागतान्यकामे निकामेणः पर्जन्योपषफलिन्यो न वोढधयः पच्यन्तान्योगक्षेमो नः कल्पताम् ्रान् वाजे पृथिवे मज्ञङ्गिलमगतवाज्यर्वाक्राण वाद्यन्तरिक्षम् वायिङ्गिनमगतवाज्यर्वाज्ञाम् वाज्याक्रज्ञश्चिनमगतवाच्यर्वाज्ञस्ते वा जनयुङ्ग्तारभे स्वस्ति मासम् पारय वायस्ते वा जनयुङ्गत्तारभे स्वस्ति मासम् पारया नित्यस्ते ज्ञान झिगषि ज्ञानम मे तृगौहा पान झिगस्त पान् मे तृगोह चक्रध चक्षधेत्रात्र मैधेषास्युर्मुधे यज्ञबीजम्बष्टावर्जन्यः पक्तांसपि ओषधरंसनाग्निध्यक्षमन्तरिक्षंसभगमानस्योपस्थानाद्यौ शिवपसौ तपोर्नोरात्रयपञ्चदशिनादमासात्रिंशमासा युक्ता नवश्शान्तः संवत्सरः ोभाट्टाकपालः सौम्यश्चरुः स्वामित्रो भाट्टागपालः पौष्णश्चरो रौद्रश्चरोदङ्कले राजद्वालशगपालो मृगाखरे दिनागच्छेदङ्ले भोमु जयट्टाकपालः सौर्यम् पयोवायव्य आज्यभागः अग्नयेकम् भौमु चेष्टाकपाल इन्द्राजागुम् भौमुचरे एकादशकपाल मित्रावरुणाम् ध्यामा गोमुद्भ्याम् पयस्या वा यो सा वित्रा गोमुद्भ्याम् चतुरस्य ध्यामा गोमुद्भ्याम् धानामरुद्धे नो मुग्भ्यः सप्तकपालो विश्वेभ्यो देवेभ्यज नो मुग्भ्यो द्वादश पालो Yeah, and they come on a hop. ज्ञये समनमत्पृथ्वे समनमध्यसा पृथिव्या समनमदेवं मह्यम् भद्रास्तयस्तन्नमन्तु वायवेदमनवन्तरिक्षाय समनमद्य वायुलन्तरिक्षेण मध्यवेदमनमध्यसामनमन्यक्षत्रेभ्यस्तमनमध्यसाय क्षत्रेस्तमनमध्यथा वरुणाद्विस्ताम् ब्रह्मणे समनवक्षत्रायशमनमद्यथा ब्रह्मक्षत्रेण राज्ञे समनमद्विषेधमनमध्यथा राजा विचारसायशमनमदश्वेभ्यस्तमनमध्यथा रसोऽस्वे प्रजापदगे समनमद्भूतेभ्यस्तमनमद्यथा प्रजापतद्भूते समनमदेवम् मह्यम् मितः पूर्व्यासो तेन भो वितता अन्तरिक्षे एभिर्नो अद्यपतिभिः सुगेऽभिरक्षा च नो अभिजलेव ब्रूहि नमोद्यक्षिते लोकस्पृते लोकमस्मै यजमानायदेहि नमो भागमेवेऽन्तरिक्षरक्षिते लोकस्मृते लोकमस्मै यजमानाय देहि नूर्यायिक्षिते लोकस्मृते लोकमस्मै यजमानागेहि अश्वस्य मेभ्यस्त शिरो वेद शीर्षण्वान्मे भवत्युषा वा अश्वस्य मेध्यस्त शिरस्वोद्यश्चक्षुर्वादः प्राणश्चन्द्रमाश्रोत्रं दिशः पादावान्तरदृशाः परिषमोः रात्रे निर्धमासाः पर्वाणि माधाः सन्धानाः जनभोऽवत्सरात्मानस्मयक्षेता नक्षत्राय ोपन्नालका न्यौषधयो लो मानि वनस्पदयो माला अग्निर्मुखं वैश्वानरोतकं समुद्रमुदलमन्तरिक्षं वायुर्द्यावापृथिवी आण्डो द्राभाषेश्व यज्ञञ्जभ्यते तद्विद्योतस्तरणे हरितद्वर्षति वागे वास्य वागहर्वाश्व पुरस्तायतेजायतौ मिमानामश्वमभिनः सम्बो वधुर्वर्वाशुरा मनुष्या समुद्रो बाश्वस्य यो यः समुद्रो बन्धुः ओमकाण्डः समाप्तः कृष्णयजुर्वेदे संहिता सम्पूर्णम्